श्रीमद्भागवत्पुराणम् श्रीमद्भागवत् महात्मे षष्ठोऽध्यायः सप्ताहवृतीनां पुंसां नियमातृनारद विष्णुदीक्षाविहीनानां नाधिकारकथा सर्वे ब्रह्मचर्यम् अथ सुप्तिः पत्रावल्यां च भोजनम् कथासमाप्तौ भुक्तिं च कुर्यान् नित्यं कथावृती देदलं मधितैलं च गारिष्ठान्नं तथैव च भावदुष्टं परिशितं जह्या नित्यं कथाव्रती कामं क्रोधं मदं मानं मत्सरं लोभमेव च दम्भं मोहं तथा द्वेषं वेदवैष्णोविप्राणां वे गुरुगोव्रतीनां तथा श्रीराजमहतां निन्दां वर्जयेद्य कथावृती रजस्वलां त्यज म्लेक्षपतितव्राजकैस्तथा जन्दुलभे वेदबाह्यैश्च न वद्ये वदेद्य कथावृती सत्यं शौचं दयां मौनम् आर्जवं विनयं तथा उदारमाणसं तद्वदेवं कुर्यात्कथावृती दरिद्रश्च क्षयीरोगी निर्भाग्यः पापकर्मवान् अनुपत्यो मोक्षकामः शृणुया च कथामिमाम् अपुष्पाकाकबन्ध्या च बन्ध्या या च मृतार्भकां श्रवद्गर्भा च या नारी तथा श्राव्या प्रयत्नतः एतेषु विधिना कथा भवेत् अत्युत्तमा कथादिव्या कोटियज्ञफलप्रदा एवं कृत्या व्रतविधीमुद्यापनमथाचरेत् जन्माष्टमीव्रतमिव कर्तव्यं फलकाङ्क्षिभिः अकिञ्चनेषु भक्तेषु प्रायो नोद्यापनपनाग्रहः श्रवणेनैव पूतास्ते निष्कामावेष्टमायतः एवं न गाहयज्ञेऽस्मिन् समाप्ते श्रोतृभिः सदा पुस्तकस्य च भक्तुश्च पूजा कार्यातिभक्तितः प्रसादतुलसीमादाश्रोतृभ्यश्चाथ दीयतां मृदङ्गतालललितं कर्तव्यं कर्तनं ततः जयशब्दं नमः शब्दं शङ्खशब्दं च कारयेत् दिप्रेभ्यो याचकेभ्यश्च वित्रमन्नं च दीयताम् विरक्तश्चेद्भवेत् श्रुता गीता वाचा परेहरिं गृहस्थश्चेत्तदा होमः कर्तव्यकर्मशान्तये प्रतिप्रतिश्लोकं तु जुहुयाद्विधिनां दशमस्य च पायसं मधुसर्पिश्च तीलान्नादिकसंयुतम् अथवा हवनं कुर्याद्गायत्रासु समाहितः तन्मयत्वात् परमस्य च तत्त्वतः होमासक्तौ बुधौ सौम्यं दद्यात्फलसिद्धये नाना छिद्रनिरोधार्थं दोषयो प्रशमार्थं च पठेनां सहस्रकं तेन स्यात् फलं सर्वं नास्त्यस्मादधिकं यतः द्वादशब्राह्मणान् पञ्चाद्भोजयेन्मधुपायसै दद्यासुवर्णं धेनुं च व्रतपूर्णद्वहेतवे शक्तौ फलत्रयमितं स्वर्णसिंहं वधाय तत्रास्य पुस्तकं स्थाप्यं लिखितं ललिताक्षरम् सम्पूज्यावाहनाद्यै तदुपा तदुपचारे सदक्षिणं वस्त्रभूषणगन्धाद्यै पूजिताय यतात्मने आचार्याय सुदीर् सुदीर् दत्वा मुक्तः स्याद्भवबन्धनैः कृते विधानं च सर्वपापनिवारणे फलदं स्यात्पुराणं तु श्रीमद्भागवतं शुभं धर्मकामार्थमोक्षाणां साधनं स्यान्नसंशयः कुमारा उचुः इति ते कथितं सर्वं किं भूयः श्रोतुमिक्षसि श्रीमद्भागवतेनैव भुक्तिमुक्तिकरे स्थितः श्रोत्वाच इत्युक्त्वा ते महात्मान प्रोचुर्भागवतीं कथां सर्वपापहरां पुण्यां भुक्तिमुक्तिप्रदायिनीं शृण्वतां सर्वभूतानां सप्ताहं नियतात्मनां यथाविधि देवं तुष्टवो पुरुषोत्तमं तदन्ते ज्ञानवैराग्यभक्तीनां पुष्टता पराम् तारुण्यं परमं चाभू सर्वभूतमनोहरम् नारदश्च कृतार्थोभूस्सिद्धे स्वीये मनोरथे पुलकीकृतसर्वाङ्गपरमानन्दसम्भृतः एवं कथां समाकर्ण नारदो भगवत्प्रियः प्रेमगदगे आवाच तानुवाच कृताञ्जलिः नारदवाच धन्योऽस्मि अनुगृहीतोऽस्मि भवद्भिः करुणापरैः अद्य मे भगवल्लब्ध सर्वपाप हरो हरिः श्रवणम् सर्वधर्मेभ्यो वरं मन्ये तपो कृष्ण नैकुण्ठस्थो लभ्यते श्रुत्वाच एवम् ब्रुवति वै तत्र नारदेवैषमुत्तमे परिभ्रमन् समायात शुको योगेश्वरस्तदां तत्रायजौषोडशवार्षिकस्तदाब्द्यासात्मजो ज्ञानमहाब्धिचन्द्रमा यथावसाने निजलाभपूर्णप्रेम्णा पठन् भागवतं शनैः शनैः दृष्ट्वा सदस्यापरमो नृतेजसं सद्य समुत्थाय दु प्रीत्या सुरर्षे तमपूजयः सुखं स्थितो वदसन् शृणुतामलां